पुनते पुनदे भजन्ताः घृतपदेशक्वदेशोपृष्टोपरितमेश्व वेदस्वस्तिर्दो घटः स्वस्ति परशुर्ते स्वस्ति हविष्कृतो यज्ञामास्ते देवासो यज्ञभिमञ्जोषन्ता अग्ना विष्णो महितत्वामहित्वम् वातो सप्त रत्नादो जग्वाकृतमाचरण्यात् अग्ना विष्णोमहितारण्यात् स्वाम् मे द्यावावृथिमे स्वात्तम् मित्राकरम् स्वात्तम् मे ब्रह्मणस्पति स्वार्थम् सविताकारोदाभिर्नावच्छेष्टा धर्मघवन्दोरजन्वा यो नो चेष्टधारस्तस्वादेष्टयमद्यस्तव प्राणोज ्रतम् युवानमाहुतीवृथम् अगन्मविभ्रणो नमो दीर्घमाय शृणोतु मे सम्माहासिञ्चन्तु मरुतः सम्भोषादम् बृहस्पतिः सम्माजमग्निः सिञ्चतु प्रदयाजधनेन च दीर्घमाज त्ययादस्वस्पयम् प्राण्यान् सपत्रान् सहसा सहस्वप्रत्ययाः ताञ्जातवे दोरुदस्व इदम् राष्ट्रम् के बृहदौ गर्गाय विस्वारेण मनो मदन्तु देवाः इमायास्ते शतम् हिराम् धमनीरुता तासाम् ते सर्वाः सा मामश्वानाभिन्यथा परय्यो नेरपरम् ते कृणोमि मा त्वा प्रजाविभोन्मोदतो नो अश्वान्त्वा अक्षौ नौ सङ्गाते समञ्जनम् अन्तक्रेण श्रमाधतिमनयन्नो सहासरति तथा यथा कीर्तयाश्चिरङ्ग चक्रान्द्रम् देवेभ्यस्परि तेनानि त्वामहम् यथा देदा निसुप्रिया प्रतीये गोमप्रदीच्युतदौर्यम् प्रतीये निवान् देवाम् दाम् वाच्छावे अहम् वदा विने त्वम् सहायामहत्वम् वदा ममेन हस्तम् केवलोदाम् कीर्तनाशरा के यदि वासी तिरोदनै यदेवानद्यायम् सोपर्णम् वा रतम् मृगन्तमपाम् गर्भम् अभीमतो वृष्ट्या कर्पयम् समानो गोष्ठेर यत्रापजाति यस्य व्रतम् वच भोजन्ति सर्वे यस्य व्रतमुपतिष्ठन् तापाः यस्यो रते पुष्टपतिर्निष्टस्तम् सरस्वन्तमवासे हवामहे आप्रत्यञ्चपदिम् रायस्फोटम् सवस्वधानादिधम् वा न्यस्तदन्तर्शनो विषक्षा अवसानदर्श न्यपारजा दक्षा शिवाज गम्याद गम्याक्षाः दिव्यस्सो वर्णः सहस्र वाच्छटयो निर्वरोधा स नो नियच्छान्तः वृतमस्माक वस्तु पितृषस्वधा सोमाः रुद्राग्रे अवशो जीवी बाहे निर्देतिम् कृतञ्चरेण प्रभो भुक्तमस्मत् सोमाः रुद्रादिवमेतान्यस्मद्विश्वाः तनोजो भेदगालीधर्तम् अवश्यणम् मुञ्चरयन्नोऽसत्तनोजो भर्दम् कृतमेनोः अस्मत् शिवास्तदेका शिवास्तदेकाः सर्वाः विभर्षतु मनस्य मानः तिस्रो वाचो विहीतान्तरस्मिन् तासामेकाविव वातानुघोषम् उगानिद्य नवरादरे नेकश्च नैनयो इन्द्रश्च विश्वेधाम् त्रेधानहस्तम् विदलैः रेधाम् जनान्विश्वजनेनात्यन्तम् दूरान्यमुद्रतमेश्यादानामभेडम् अग्नेरीवास्य तः दोदामस्य तः तपृथक् एतावेतस्येश्यापत्राणि व श्रीवालि कृतुष्टुकेजा देवानामनिश्वराहूतम् प्रजाम्भि यासो बाहु स्वम् गुरिः सुवसो वै तुस्यै विष्पत्नी अविस्ते बाल्ये जोतरा या विष्पत्नीन्द्रमदे प्रती तस्तु काभियन्ती देवी विष्णाफ्रितुभ्यम् लताहवीम् विपतिम् देवि राधा से चोदयस्व गुहूम् देवीम् सुहृदम् यद्मनापादमस्मिन् यज्ञे सुखवाहजो हवीमि सानोः रणिम् विश्ववारम् निगच्छात् ददातु वीरम् सरदामुख्यम् गुहो देवाना वर्त्री हव्यानो अस्य हविषो शृणोतु यज्ञमो शदीनो अद्य राजस्फोटम् जगतुले रागामहम् सुभवाः स्तुती हो वे शृणोतो नः सुभगामोदयत्मना सेव्यत्वपः सोच्याच्छिद्यमानया ददातु वीरम् शरदायुख्यम् यास्ते राजेषुमादरः सुभेतोजाभिर्ददायधा सु ताभिन्नाद्य सुमना उपागतहस्रावशं बगे देवानाम् पत्नी सुमन्तु न देवाय सादरे या पार्थीवासो या वादेता नो रुणारीणो गन्तो देवेर्यनाम् यदा वृक्षमशनिर्विश्वाहन्त्यप्रजे देवामद्यके तवाक्षैर्वद्रासमप्रे पुराणामतुराणाम् विशामलुषीणाम् स्वमेतो विश्वतो भगव अन्तर्हस्तम् कृतम् मम ये अग्निम् स्वादसु नमो विरहप्रसक्तो विचारकृतन्नाः रथैरप्रभरे वाजयध्यप्रदक्षिणम् मरुताम् स्तोमवृद्ध्या वयञ्जयद्वया युजावृतमस्माकमशमुत वा भरे भरे अस्मभ्यमिन्द्रभरीर सुगङ्के देवणाम् मघवन्मृष्ण्याः रुजा अदीरन्तासलेखितमदैरमुत संवृतम् अविमृतो यथामथ देवावथ्रामिते हृदम् उग्रहामणि काले यो देवता मोनधनम् ऋणद्विसमित्तम् राजश्रेजतश्वः गोवीरेव नहोद विश्वे वयम् राज सुप्रथमधनान्यष्टा सोमृजीभिर्जरे वा कृतम् मे दक्षिणे कष्टे जयो मे संव्यावीता क्षाफलवतीवम् दर्तलाम् शेरिणीमिव सामागृतस्य बृहस्पतिर्नः परे पातुपश्चादोत्तरस्मादनादकायोः इन्द्रः पुरस्तादुतमध्यतो नः सादयेभ्यो मरे न कृणोतु सञ्ज्ञानम् हस्तेभिः सञ्ज्ञानेभिः संज्ञाने अस्मातम् सञ्जानामै मनः साधन्ते चित्ता साधव्येन माघोषावस्थुर्बहुले विर्हतेन्दस्याहन्यागते भोजागतिरक्षमस्य बृहस्पतेरविशस्तेन त्यो वदामश्विना मृत्युमस्त्वा देवानामटजासरे शङ्कम् माजरीतम् शरीरम् प्राणापालूते शैलाभिहस्ता शरनुले वर्धनमानोष्ठे गोपाधिपापतिष्ठा आयनुयत्ते कथयम् वराजेन बाणप्राणः पुनरादावे अग्निष्टदा निर्वृदे पुरादे जनाम् प्राणोः जीमोहपाणो वायपरागाद स्वप्रशिभ्येन पदेतम् वितरेणम् समीजनदे वहन्तो प्रविशतम् प्राणापानामनड्वा गौरगम् अयम् जिम् न शे परिष्टा रे प्राणम् सुवाम शिवरालक्ष्मम् सुवामिरे आयन्दो विश्वतो नेण्यः वद्भजन्दमसस्वरिलोहम् दो नाकमुत्रमम् रेवन्दे वत्त्रादोषमकम् मज्ज्योतिरुमम् ऋजम् सामये नाभ्याम् कर्माणि कुर्वते एते सदशिराजतो यज्ञम् यच्छतः प्राक्षम् हविरो दुर्बलम् येष मा तस्मान् माविम् पृष्टश्च जीवने एते बन्धानोगिवो यभिर्विश्व तेभिः सम् न जाते हि लो गतो गिरश्चिरादेन सिताकृता तत्कङ्कवर्मणो विषमिजम् मेरुदीनशत इयम् मधु जाता मधुश्च मधुः सा विहेतस्य यतो दष्टै यतो धीतम् ततस्ते निर्वाजामधिस्य त्रिमृदंशिनोः वशकस्य रसम् विषम् अय्यो वक्रो विपर्यम् गोमुखादि वक्रामेना कृणोषि शीर्षेण अरयम् पापया पुजापुच्छेभर्षम् अदन्ति वाशाकोटपरसम यौवाभ्याशत यदा वदुभे यद्यागस्तर जन यदात्म मे विष्ट सरस्वती कला सप्रक्षरम् पुत्रासो रायि उभेदस्योभेदस्य राजत उभेज ते उभेदस्य पुष्यतः इन्द्रा वरुणासुतपामिमं सुतम् सोमुन् विपदम् मध्यम् धृतौ रतौ दिवो रतो द्वरो देव भीतरे पी प्रतिसदानमुपजातु पीतरे इन्द्रा वरुणामधो मत्तमस्य वृष्णः सोमस्य वृषाणाविषेधा इदम् वा सद्यास्मिन् वरिणे मादरेधा यो नः शपादशपदः शपतो यश्च न शपाद वृक्षदेव विद्युदाहतामो रागनो गृहाणैवे सुमनावन्दमेण तिष्ठन्तस्तेनो जानन् त्वाजातः एषा मध्येति प्रवसन्मेषु सौमने महेतेन जानन्त्वायातः उपहोराहोलिधना सखाहस्पादुसम्बुदः अक्षुद्यादृश्यागृास्तभेद उपहूाव अदो अन्न से दृश्या क्षुभ्या इतमुगात विश्वाह रूपा पुष्य ऐष्या विभद्रेण सह भूयाम् स भवतामया यदग्नेतपसादव उपद्यामहेतपः प्रिया श्रुतस्य भूयास्मायुष्मन्तः स्वेधताः आज्ञेतपस्तव्यामहोपदभ्यामहेतपः श्रुतानि शृण्वन्तो वयमायुष्मन्तः स्वेधसा अयमग्निः सत्त्वजवृद्धविष्णोरथीवत्य जनत्पुरोहीतः नाभाः पृथिव्यान्निहितोदविद्युदतः सह मानमग्निमुक्थयति दुर्गाणि दुरितान्यग्निः इद कृष्णश्ची वदत् आपो मा तस्मात् सर्वस्माद्तात्पान्तम् हरतः यदयश्च गुरीरमा वृक्षम् निर्मिते ते मुखेन अन्यर्मा तस्मादेन सौकार्घ्यपत्य प्रमुतो प्रदेशेन बलोहि त्वमपामार्गरुहीतः सर्वान्मच्छाम् अधिपरीहीयोतयच्छमनम् यद्वाचेरिमपा तदा तर्तिष्ठतो मुखापाः मार्गापम्रज्महे श्रावरदाकुलखिराः बण्डेन यत्सहा दिवा अपाः मार्गत्वया वयम् सर्वम् तदपमज्महे यद्यन्तरिक्षे यदि वा तासरति वृक्षे तु यदि वा लोकेतु यदस्रैवम् पशव उद्यमाहानम् पुनरात्मा द्रविणम् ब्राह्मणम् च उमारग्निजोधिष्ठ्याहारदास्तान्तामिहैव सरस्वतिव्रजेशो दे दिव्येशो दे विधामनसो जुषस्वहव्यमाहूतम् प्रजाम् दे विदरास्वनः दिनन्दे हव्यम् घृतवत् सरस्वतीदम् पित्रेणामविधास्या इमानेत उदिता सन्तो मन्दस्याः सन्ती वारेर्यवसन्दृशाः शन्नो वातो वादुषम् नस्तो सूर्याः आहारिशम् भवन्तु नः सम् रात्रे प्रतिधीयताम् समुषानोऽप्यच्छत यत्किञ्चासौ मनसायच्च वाचा यज्ञेर्जुहोति हविषायजूषा तन्मृत्युदानिर्वजः संविधाना पुरा सत्यादाहो जिह्स्य गातुर्तेन सन्तवेतेन सत्यम् इन्द्रे हिता देवा आज्यमस्य मत्रम् द्वादत्सम्पाहा नियतसौ जुहोति अदिरादिराजौ श्येणौ सम्पातिनाहा ज्यम् वदन्यतो हाञ्जौरः कश्चाभ्यगायम् हि अवाञ्जौदौ गो बाहु अवीरय्याम् यास्यम् अग्नेर्देवस्य मन्युनाथेन देवधिजम् हविः अवीरय्याविदे बाहु अवीरह्याम् यास्यम् अग्नेर्घोरस्य मन्युनाथेन देवधिजम् हविः परित्वाग्नेपुरान्मयम् विप्रम् सहस्य धीमि दृढध्वन्नम् दिवे दिवे हन्तारम् भङ्गुरावतः प्रतिष्ठताव पश्यतेन्द्रस्य भागवृत्तिरम् निधिः श्रातम् जुहोत निद्यश्रातम् ममत्तेन श्रातम् हविरोष्मिम् भक्तया हि जगदावसोरो अध्वनामिमध्यम् परे ्रातम् अन्यबोध्रातमग्नोदम् नवीनः पाद्यन्दिनस्य कराणस्य रग्नन्दवद्यम् गुरुकृत्योषाणः समिद्धो अग्निरेषणा रथीचुरः सप्तो धर्मो दस्यते वा वयम् हि वाहम् पुरुदवाः सो लक्ष्मिनाह वामहे धमदेवाः समिद्धो अग्निरश्मिना तप्तो वाहम् धर्मागनम् दुर्यम् दे नूनम् वेशणे कधेन वोदस्तामदम् देदधाः स्वाहा गतश्रियन्दे तु जज्ञो नो अश्विनो च मनो देवपानाः प्रमुविश्वे अमृता धर्मस्य प्रत्यादिहन्ति यदुश्रया धर्तानाम् विदतस्य तत्पदीम् रोधमे दिव तत्तो माम् घर्मो नक्षत्रस्वाहावद्धर्यश्च मनोर्दुग्धस्यातनाया वेतम् पातम् पयस पुस्त्रियाया उपद्रवपयसा गोधुगोषमाधर्मे चिन्तपयुस्त्रया विनाकालख्यत्स पितावरेन्द्यो न प्रजा न पुषतो विनाम् धेनुमेताम् सुहस्तो बोधुेव श्रेष्ठम् समंस पितासा विषण्णोऽद्धो धर्मस्तोढप्रमोद किम् केव मत्समिच्छन्ति मनसा न्यागन् दुहामश्निभ्याम् वयो अग्नेयम् सावर्धताम् महते सौभागाय दृष्टो नमो नादे यज्ञमुपाशि विद्वारि अभिजो विगत्य शब्दो यतामाभारा भोजनानि अग्ने शर्ध महते सौभागाय तद्युम्नान्युत्तमानि सन्तो ञ्जास्मत्यम् सुजामाश्वदत्रो नतामभितिष्ठामहांसि श्रूयवगाद्भगवती भूयादा वयम् भगवन्तः स्याम अद्धित्रिणमग्ने विश्वयदानीम् विव शुद्धमो नी अवजिताम् लोयी नीलम् नष्टा मातेति शुश्रुमा मुनेर्देवस्य मोलेन सर्वा विद्यामिताहम् विरुध्याम् यासाम् पदमान्यतमध्यण्डगण्या वाधामाच्छेदविन्दुकाः विवष्ट्रेणारम्भ सावितरीर्ष्यामीवनम् अथो यो मन्यस्ते पदे तभूते समयामसि प्रदेत्वाम् व्रतपदे समक्तो निष्वाहा सुमनाः दीनिहीयाम् तन्द्वाः परङ्गः नवेरः सविद्धम् प्रजावन् दुपासदेव सर्वे प्रजावते सोजवासे ऋषन्ते श्रुद्धा अपस्सु प्रमाणे भावस्तेन ईश देवागरम् परेवो रुद्रस्ते दर्वे लो पदज्ञा सर्वानर संहिता विश्वनाहन् उपमादेवे इमङ्गोश्चमिदम् सरो घृतेनास्मान् समुक्षत आ सस्रथः सहस्रथो असदेभ्यो असत्तरा सेहोरणा या ग्रह्याः अपजतोऽथो यावोपपक्ष्याः विराम्यजसम् यष्कीकसा प्रश्णाति तलेद्यष्ठति निरास्तम् सर्वम् जान्यम् यः कश्च जगुदिश्रक्षी्यतति गा वीशति पूर्वक्षम् रक्षेतस्य वेडजम्भोत् निर्भवेते जान्यजानम् यतो जान्यजानते कथम् जगतधर्मश्चर्गृहे ृढस्तर ज्येष्ठानस्मासुधेहि स्वान्द्रवन इदम् हविर्मतस्तज्जो जुष्ट अस्माको दीरे यो नो वर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वद मोदिकांसति नृगापाशान् प्रतिमुञ्चताम् शतपिष्ठेन तपसाहन्तम् संवत्सरीया मरुतः स्वर्गा वृक्षास्तकणामानुषादः ते अस्मत्पाशाम् प्रमुञ्चन्तेन तस्सान्तपः नामसरामाः दैष्टवाः विते मुञ्चा विनशयनाम् वियोत्रम्यनियोजनम् इहैवत्त्वमयस्तरे धर्मे तस्मै क्षत्राणि धारयन्दवर्गेत्महा ब्रह्मणा देव्येन वीरिश्या आस्मभ्यम् द्रवीणेन भद्रम् क्षेमम् बोचो हृत्ताम् देवता यस्ते देवा कृण्यमावास्ते सम्मतम् तो तेनानो तेना नो यज्ञम्वारेण सुभगे सुवीयणम् वास्यान्ति सुकृतो बलीवे बलिदेवारे बदी साध्याश्चेन्द्र ज्येष्ठाः समागच्छन्त सर्वे आगन्दाद्री सङ्गमदेवसो रामोर्जम् पुष्टम् अस्मा विचयन्ति अमावास्या दीघविदापि देवोर्जम् दुहा स्तेन त्वदेतान्यन्यो विश्वाः रूपाणि परिपूर्ज याः वास्ते वयम् पूर्णा पश्चादुतपोर्णा पुरस्तादुन्मध्यडः पौर्णमादी तस्याम् देवैः सम्मदम् नो बृहीत्वा रागस्य पृष्ठे सिषा वा देवा विडवम् वादिनम् वयम् पौर्णवादयहे सनातदात्तक्षीणापदस्पदे वृदापदेपदेतान्यो विश्व रूपाणि परिभोर्चाम तिर्कामास्ते जमत्सन्नास्तु भजस्यामयपदयोनीया पौर्णमासे प्रथमानिज्ञादम् विष्टाः पूर्वापरम् च ततो मायतो क्रीडम् विश्वान्यो भवाना विचष्टा ऋतो विदधत्रायते नमाः नवो नवो भवति जायमानो भागम् देवेभ्य विनरथास्यायम् प्रजन्द्रमस्तिरसे दीर्घमारोः सोऽस्याम् सोऽयुधाम् पते नो नो नाम अनूनम् दर्शवा कतिर्ग्राजने दर्शोदि दर्शतो ङ्गोविरश्वे प्राजया पशविर्गृहयेद्धनेन योस्मान् वेष्टिजम् मयम् निः स्वस्यर्थम् प्रामेणाप्यायस्व पायम् व्याश्रे मणिगोविरस्वेप्रजया पशविर्गृहये धनेन यन् देवा अंशुमाप्याजयन्ति चमक्षीतमक्षीता भक्षयन्ति भ्यर्चदृङ्गम्यमाजिमस्मासु भद्रा द्रवीणानि दत्ता यज्ञानो घृतस्य रामधो मन्दा नैयग्ने अग्निम् गृह्णामि सह क्षत्रेण मयि प्रजाम् मय्यायुदधा विस्वाहा मय्यग्निहैवाग्ने अनेधारणारण्यम् मात्तानि कर्मपूर्वचित्तादिकारिणः क्षत्रेणाग्ने ना। सुवस्तुतोभ्यर्वतसतान्ददाम्भे अनिष्ठतः अन्वग्निरुणदामग्रामख्यदम् महानिप्रतमो जाधवे अनुदोर्यवृदो अनुरश्मेऽनुद्या वा पृथिवी आवीरेदा प्रत्यग्निर्विधामर्गमर्घ्यर्तत्या प्रतिगोर्यस्य वृदा च रश्मेद्या वा पृथिवी आदता घृतङ्गे अग्ने दिव्ये रथस्थे घृते नर्ता मनोरद्या समिन्धे घृतङ्गे देवेन्नत्या रुणगृहो राजा धामानिमुञ्च धाम् नो धाम् नो राजम् वितो वरुणमुञ्चनः यदा वो अज्ञाय च वरुणे वरुणमुञ्चनः उदुत्तमम् वरुणपाशमस्मदवाहधम् निध्यमम् अथ वयमादित्यव्रजेतवानाः गतौ अरीतरे स्याम प्रास्मद्पाशाहम् वरुणमु सर्वाङ्ग्यमुत्तमा धाणादे दुष्वग्म् दुरितम् निःश्वास्मदथ गच्छे मनुगतस्य लोकम् अनादिश्यो जातरे रामर्त्यो विश्वामे वा प्रपुञ्चन् मानो हे शिवाभिनद्यपरेपाहि नोगजम् इन्द्रक्षत्रमय आमोजोजायीना अवानुलोगणमित्रायम् च पुरुन् देवेभ्यो अदृणोर्लोकम् मृगो को च लोके चाप्ता रावदानगम्यात्परस्याः ृतस्वन्दोन्दृता हनिष्टनेन मृतनादिमाशम् स्वस्तरे तार्ख्यमिहाहोदेव राजारविन्द्रमृता रविन्द्रम् भवे हरे सुभां म् बोरोहोतबिन्दम् स्वस्तिरनिन्दो मघवान् कृणोतु यो अग्नौ रुद्रो यो अप्स्वान्त यनिमा विश्वाभवनानि चालपे तस्मै रुद्राजनमोः अस्तरे शरीरस्य निर्वासि विष विषमा वृक्षा विष अहीमेवाध्यमे हितहि अवो दिव्या चायसं लक्ष्मी पयस्वानग्रागमम् तम् आसङ्गेवच्च सा दसंगजातमायुषा निर्गम् अस्य देवा इन्द्रो विद्यात्सहषेभे निगाप्रभाहता वद्यम् च अमरम् च यस्या तेजो तेजोधितेजो मनीदेहि अभीवृश्च पुराणापद्म पुष्पिटम् ओजो दास्यस्य अदम्भया परन्दरस्य असम्भृतम् अस्मिन्द्रेण विभाजामहे ्रमरुणस्य वे यथा स्त्रेषु चासदनामयाः अवस्तस्य कृते दशाङ्कुरस्य नितो निराः यदा यदुत्तर तम् निदत्त इन्द्रः सुद्रा मास्वभोः विश्वमृणे को बाधतान्यः कृणोतु सुवीर्यस्य वतस्याम सोद्रा वास्ववामिन्द्रो अस्मदायम् सोमतो यज्ञिकस्यापि भद्रेदौ मनजे स्याम इन्द्रेण मन्यदा वयमविश्यावतन्य घन्तोत्राण्यप्रवन्ध्र यथा न केवलेर्विषः सम्मनस्त उदस्य शामो मेधुरौग्रहोध्यामेव उच्छोचनप्रचोचनावस्योच्छोचनो हृदयः अनवेणाम् गावो शाम् दधदाविवर्पुरादेव कूजम् तावृतवन्तौरुकाविवदिनो नितोदिनामथो सन्तौरिणाः भूता अपेदस्याम् यस्य अस गङ्गावने वत्वसहतिम्बराः पर्वतास्त्वस्थाम् वृत्तावष्ठिवम् यदद्यत्वा अस्मिन् होतश्चि चित्तम् न वेमहेह ध्रुवमायो ध्रुवदाज्ञमुपायाहि सोमम् समिलिन्द्रमन दाने ततोभिः संसोभिर्हरिवन्संब्रह्माणाम् देवहीतम् देवानाम् सुमहतो विज्ञा ज्ञानावतो देवदेवान् तान् प्रेरयस्ते अग्ने सदस्ते यक्षिवाम् सप्तमिवांसोमधो हन्यस्मि दत्तवधो मधो सुगावो देवास्तदाकर्मजादेवायुषाणाः बहवाणा स्वावतो हतानो यज्ञरज्ञम् गच्छ यज्ञपदिम् गच्छ स्वायरिम् गच्छ स्वाहा देशदे यज्ञो यज्ञपदे तहवोक्तवाकः सुवीर्य स्वाहा वषढुवेभ्यो वशूतेभ्यः देवाः गातुमिद गातुम् विद्वा गातुमीता महसस्पतिमन्नो दिविदेवेषु यज्ञम् स्वाहादिविः स्वाहा पृथिव्याम् गाहान्तरिक्षे स्वाहावाते धाम् स्वाहा सम्बर्हि रक्तम् हविडा ऋतेनन्द्रेणम् वरुद्धिः तन् देवैर्विश्वरक्तम् दे गच्छतु हमिष्मानस्य लोके पर्यावर्ते दुष्वज्ञाः स्वज्ञानभूत्याः ब्रह्माहवन्तरङ्गण् स्तुताः यः स्वप्नम् न वश्नविनप्रादराधिगम्यते सर्वम् तदस्तु मे शिवम् न हि तद्दृश्यते दिवा नमस्कृत्यवेक्षास्तिष्ठन् माहिंसिरेश्वर ओ अस्यात्यावृन्च्छन् मक्कव योः कृपृष्टिम् इत्येव कल्पयाति अवकामन् पौरुढेण दृढानो देव्यम् वचाः सदेवे सह यदस्त्रे ततः न प्रचभ्यो नर्तवस्तुनः अवदिवस्ता सप्तदोर्यश्च रश्मयाः आवश्य मुद्विराधारास्तास्त्रे यो नस्ताडिप्सदिलो न आविश्व रणे नर्तनीतान्मैधा भग्ने मास्तु भून्वो अपत्यम् यो नः सृक्ताञ्जाग्रतो वा तिष्ठतो वा जनतो जातवेदः नैश्वानरेण दयुजः तजोधास्तान् प्रतीतो निर्दवेदः इदमुय बभ्रवेण भोजोऽ अक्षेषो तरो मही घृते घृतमप्सराभ्यो हर्तमग्ने पांसूरक्षेभ्यस्य कपश्च यथा भागम् भव्यतावदन्ति वा उभया यथा मादम् वदन्ति हृधानमन्तराधोरियन् तारेणस्तौ सम्क्रीडन्तु कृतेन सपत्यम् नवम्रम् धरन्तु आदिनवम् प्रतिदीम् वृक्षमेवासञ्ज्ञाजित अस्मान् प्रदिदी इति गो नामग्रम् पश्याश्चेभ्यो इन्दव हविडामः देवान्यो हृदे ब्रह्मणर्य अक्षान्यभ्रो लालभेदेनोन्न अग्निन्द्रस्य दाशे हतो वक्तान्यप्रदे उभायन् स्वाणग्रहतस्तदर्भमानानि विस्वा प्रचीणावद्रे वाहुरमतिमिन्द्रम् मृत्रहणादेहम् उपत्तादेवोग्रभेच्छमसेन बृहस्पतिः इन्द्रयेभ्यन्नादेशयजमानमय सुन्दरे इन्द्रस्य पक्षिरान आत्मा देवाना उत मानुषाणास्त आसुरा अन्यत्रे कास्ते रमन्ता शुम्भेण सप्तसहस्रवर्देवे स्नानो मुञ्चन्तम् घातः मुञ्चन्तोपाचपत्या अजायमश्च पद्वेशाद्विश्वस्माद्येव दृष्टिके दृष्टवन्दनमुदो्छिन्धि दृष्टादि दृष्टिका विषामे परिवृक्ता यथा वसेव आदे तदेव क्षणाभ्यादेशम् हृतरादेव आदे मुखस्य शङ्काशात् सर्वम् देवच्छाददे प्रेतोऽयम् तु व्याध्यप्रारुभ्या प्रोदस्तरः अग्निरक्षस्य दीर्घम् तु सोऽहन्तु दुरश्च प्रवदेत प्रा विलक्षिणश्चेद प्रामुदः पदा अयस्मरेनाहम् केन दृढदे ष्टाभिस्कन्धवन्देव वृक्षान् अन्यत्रास्पत्सा वितस्ता वितोधाहिरन्यहस्तोरा एकशतम् लक्षो मध्यस्य साकम् तम् वा जनुषोधी जाताः तासाम् वाविष्टाभिषिवा अस्मभ्यम् जातवेदो एतादे व्याकरणम् खिलेगाभिष्ठेतादि वा भवन्ताम् पुण्या लक्ष्मीर्या स्वामीस्तानी नमो रोराचनाय लोदनायधिष्णवे नमः शीताय पूर्वगामदत्वाद्योभयद्युरभ्ये एवम् मण्डोगमभ्ये त्व आमन्त्रेन्द्रहरे हृदयादिमयूररोमभे महाद्वाके चिद्वय मन्दिर्लपादिनो चिन्मेताच्छादना विधोमस्ता राजामृतेनानुमस्ता पुरोर्वरीहीरो वरुणस्ते इति सप्तमम् काण्डम् समाप्तम्